मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं तर्टि एय्ट् धूम्रवर्णचरितमाहात्म्यवर्णनं गणेशाय नमः सूत उवाच वरतन्दुर्मुनिश्रेष्ठो नानाविधतपःपरः mm. शान्तिं न तपसा लेभे तथक् खेदयुदो भवद नश्वरं विश्वमेवं स ज्ञात्वा ब्रह्मपरो भवद तत्रा जगाम पौलस्त्यो विश्रवा मुनिसत्तमः तं दृष्ट्वोद्धाय विप्रेषं प्रणनाम पुपूजः पप्रच्छाभोज्यहर्षेण युक्तः परमपावनं वरतन्दुरुवाच त्वं साक्षाद्योगिनां वन्द्य पावनो हि समागतः महापुण्येन ते दृष्टं मया प्रभो योगशान्तिप्रदं ब्रूहि येन शान्तो भवाम्यहं नश्वरं सर्वमुत्सृज्य तदर्थं लालसोऽधुना विश्रवा उवाच ब्रह्मज्ञानं विनादाद न शान्तिं लभते नरः ब्रह्मनानाविधं वेदेषु प्रोक्तं वेदवादिभिः तेषां पदीं गणाधीशं ब्रह्मणस्पदि संनिधं तं भजस्वविधानेन तदा शान्तो भविष्यसि विश्वं वपुशिरो ब्रह्म गजं योगे तयोर्मदः सिद्धिबुद्धिपदिः साक्षात्परस्वानन्दवासकृद वर्णा धूम्रा यिदा यत्र मनसा मुनिसत्तम तेन धूम्राक्षरप्रोक्तो ब्रह्मभूय प्रदायकः धूम्रवर्णम् गणाधीशम् भज यत्नेन मानद तस्यैव भजनम् कृत्वा शान्तिम् प्राप्तोऽहमुत्तमाम् नान्यथा पूर्णशान्तिं तु लभदे कोऽपि निश्चितं वेदादिभिर्मुनीन्द्रैश्च वेदाद्यैः पश्यतं विभुं पुलस्त्येनोपदिष्टोऽहं नानायोगपरायणः त्यक्त्वा ब्रह्माणि तन्निष्टः सदा भुवं न संशयः एवमुक्त्वा महायोगी विश्रवास्वस्थलं ययौ वरतन्तुर्विचार्य इवं गणेशभजनेरतः कण्ठम्मौद्गलसंस्थं स धूम्रवर्णात्मकं परं जजाप नित्यमानन्दाद पूज्य विघ्नेश्वरं परं पूर्णशान्तियुधो जादो योगेन्द्रः सर्वभारगः नित्यम गणेशकृपया नित्यमभजद्गणनायकम् एकदातीर्थसंस्थः स धूम्रवर्णं पुपूजः तस्याग्रे नित्यकं पाठं सचक्रे धौम्रवर्णकं तत्र काकस्थितसोऽपि वृक्षशाखापरायणः शूलयुक्तः स शुश्रावधूम्र वर्णचरित्रकम् सद्यश्च शूलहीनः स बभूवे कर्षसंयुतः उड्डीय प्रययौ तस्माद्वृक्षात् स्वेच्छावरायणः अन्ते गणेश्वरं गत्वा ब्रह्मभूतो बभूवः अज्ञानश्रवणात् पुण्यं पश्य किं कथयाम्यहम् एवं नानाजना श्रुत्वा धूम्रवर्णचरित्रकं ब्रह्मीभूता बभूवुस्ते भुक्त्वा भोगान्विशेषतः तेषु किं ते, ते महाविप्रकथ्यते तन्नशक्यदे शक्यते अथत्सङ्क्षेपदप्रोक्तं श्रवणस्य चरित्रकम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे धूम्रवर्णचरितमाघात्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः ओम्